एकसप्तत्यधिकशततमोऽध्यायः गन्धर्व उवाच अथ तस्यामदृश्यायाम् पपातधर्णीतले तस्मिन्निपतिते भूमावथ सा चारुहासिनी पुनः पीनायतश्रोणी अथाबभाषे कल्याणी वाचा मधुरया नृपम् तम् कुलकरं कामाभिहत चेतसं। उवाच मधुरं वाक्यं तपति प्रहसन्निव उत्तिष्ठोत्तिष्ठभद्रम् ते न त्वमर्हस्य निन्दम मोहम् नृपतिशार्दूलगन्तुमाविष्कृतः क्षितौ एवमुक्तोऽथ मधुरया तदा ददर्श विपुलश्रोणीम् तामेवाभिमुखे स्थिताम् अथ तामसितापाङ्गीमाबभाषे स पार्थिव मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा साधुत्वमसितापाङ्गिकामार्तम् मत्तकाशिनि भजस्व प्राणाहि प्रजहन्ति त्वदर्थम् हि विशालाक्षिमामयम् निशितैश्चरैः कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति दष्टमेवमनाक्रन्दे भद्रे काममहाहिना सा पीनायत पीनायतश्रोणिमाप्नुहि वरानने त्वदधीनाहिमे मे प्राणाः चारु सर्वानवद्याङ्गि पद्मेन्दुप्रतिमानने न ह्यहम् त्वद्रुते भीरु शक्ष्यामि खलु कामः कमलपत्राक्षि प्रतिविध्यति मामयम् तस्मात् कुरु विशालाक्षिमय्यनुक्रोशमङ्गने भक्तम् मामसितापाङ्गि न त्वम् हि माम् प्रीतियोगेन त्रातुमर्हसि भाविनि त्वद्दर्शनकृतस्नेहम् मनश्चलति मे भृशम् न दृष्ट्वा पुनश्चान्याम् द्रष्टुम् कल्याणि रोचते प्रसीदवशगोऽहम् ते भक्तम् माम् भज भाविनि दृष्ट्वैव वरारोहे मन्मथो भृशमङ्गने अंतर्गतं विशालाक्षि विध्यति स्म पतत्रिभिः मन्मथाग्निसमुद्भूतम् दाहं कमललोचने प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्वमे पुष्पायुधं दुराधर्षम् प्रचण्डशरकार्मुकम् त्वद्दर्शनसमुद्भूतम् विध्यन्तम् दुःसहैश्चरैः उपशा कल्याणी आत्मदन भाई गाध विवाहन मेहि वरांगने विवाहनाश्रेष्ठ उच्यपुवाच नाहशात्मनो राचं कन्या पितृमती ह्यह मई चेदस्ति मम यताहिते मया प्राणाः सङ्गृहीता नरेश्वर दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहर न चाहमीशा देहस्य तस्मान्नृपति सत्तम समीपम् नोपगच्छामि न स्वतन्त्रा हि सर्वेषु लोकेषु विश्रुताभिजनम् नृपम् कन्यानाभिलषेन्नाथम् भर्तारं भक्तवत्सलं तस्मादेवं गते काले याच स्वपितरम् मम आदित्यम् प्रणिपातेन तपसा नियमेन च स चेत्कामयते दातुम् तव मामरिसूदन भविष्याम् यद्यते राजन् सतदम् वशवर्तिनी अहम् हि तपती नाम सावित्थ्यवरजासुता अस्य अस्लोक प्रदीप से सतु क्षत्रिअर्षभ महाभारत आदिपर्णि चैत्ररथपर्वि तपस्ुपख्यासतमोध्याय